मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं तर्टि नैन् नवमखण्डमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच प्रह्लादो नामविख्यादो योगी योगपरायणः मयूरेशं समाश्रित्या भजत्तं भक्तिसंयुतः स्वप्ने ददर्शदेवेशं मयूरोपरि संस्थितं सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलं तं प्रणम्य साश्रु नेत्रो महायशाः तं जगादमयूरेशो वर यत्स्ववरान् परान् सदं प्रणम्य विघ्नेश मगधर्षसंयुतः योगशान्तिप्रदां देहि भक्तिं तेदितरां प्रभो तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः मौद्गले नवमं खण्डं पश्य योगप्रदायकं तेन योगीन्द्रवन्द्यस्त्वं भविष्यसि महामदे भक्तिर्मे भविता ते सम्पूर्णभावतः एव मुक्त्वा दर्दधे सौ मयूरे स्यो महामदिं सञ्जागृतो भवत्सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ततो मौद्गलसंस्थं स खण्डं योगात्मकं परं पपाठालिख्यभक्रिया स नवमं नित्यमादराद योगगीतार्थकं योगमलभक्तत्प्रसादः ततोधिहर्षसंयुक्तो भजतं नवधा प्रभुं क्षेत्रसंन्याससंयुक्तो नित्यं भक्तिसमन्वितः पपाठ पाठकृत्पूर्णं नवमं मौद्गले कदा दैत्येन्द्रमुख्यश्च बहुधा सिन्धुसंनिधः क्षेत्रमूर्तिं गणेशस्य खण्डयामास संस्थितां सिन्धोश्च प्रतिमां तत्र स्थापितां दैत्यफैपुरा प्रह्लादो दुःख संस्रो भवदृष्ट्वा च क्षेत्रवासि जनः सर्वे त्यक्त्वा क्षेत्रं मयूरकं प्रपेलुर्भयसंयुक्ता यत्र प्रह्लादो योगिवन्द्यः स क्षेत्रसंन्यासभक्तिदः उपोषणपरो भूत्वा तिष्ठत्तत्रैव नित्यदा मानसि मकरो तत्र पूजां विघ्नेश्वरस्य सह तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः दृढाग्रकं तस्य दृष्ट्वा मयूरेशो मृतं सदा भक्ततालुस्तं तु कृत्वा तोषयामासते नदं एवं बकौ गतो काले शिवपुत्रो बभूवः मयूरेशो सिन्धोर्देवर्षिभिः स्तुतः स समागत्य सिन्धोश्च खण्डयाम समूर्तिकां तत्रस्तां स्वयमेवं तु निवासमकरोत् प्रभुः दृष्ट्वा तं पूजयामा सप्रहलादो योगिनां वरः पारणं स चकारैव कर्षनिर्भरमानसः प्रत्यक्षं गणराजस्थं प्रसन्नो वरदो भवद सव्रे सन्निधानस्थो भज्वाधा कुर ब्रह्म ब्रह्मक मयूरे शकारतम सन्निधिवासस्थम गणम ब्रह्मियाख्यकमच्चृणुु विप्रश विश्वामहामुनि चकारमौगलस्यैव भक्त्यापारायणम् परम् सरढस्तत्र वृक्षस्तशुश्रावज्ञानभावदः ज्वरयुक्तकदाचिद्वैनवमम् खण्डमुत्तमं सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवाद यथेष्टं विशयान् भुक्त्वा ते स्वानन्दगतोऽभवद गणेश्वरं तत्र दृष्ट्वा ब्रह्मीभूतो बभूवः एवं नाना जना ब्रह्म लेभिरे खण्डसंश्रवाद पदितेषु ब्रवीम्येव केन वक्तुं न शक्यते भुक्तिमुक्तिप्रदच्छायं खण्डो नवमसंधः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ओम्